सहस्राक्षेण शतशारदेन शतायुषा हविषाहारिषमेनम् शतं यथेमं शरदो न याति इन्द्रो विश्वस्य दुरितस्य पारम् सहस्राक् क्षेणशतशारदेन शतायुषा हविषाहारषमेनम् श॒तं यथेमं शरदो न याति इन्द्रो विश्वस्य दुरितस्य पारम् सहस्राक् क्षेणशतशारदेन श॒तायुषा हवि॒षाहारुषमेनम् श॒तं यथे॒मं शरदो न या॑ति इन्द्रो विश्वस्य दुरि॒तस्य पारम्